मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं नैन्टीन् चौरवधं श्रीगणेशाय नमः मुद्गल उवाच आङ्गिरसकुले विप्रो बभूव मुनिसत्तमः तदपुत्रो पुत्रो भवत्तस्य भरतो नृपसत्तमः तत्रापि सङ्गभीतो सौ ज्ञानयुक्तो महामुनिः गणेशं मनसाध्यायन् संस्थितो मुनिसन्निधौ तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः स्तवनं संश्रुतं ज्ञानं तेन पूर्वं दृढं कृतं जडवत्सङ्गसम्भीदो बभूव ब्राह्मणोत्तमः चादुर्यं सकलं तेन गोपितं सर्वसन्निधौ विवाहादिभयात् सर्वं जडत्वं सम्प्रकाशितं मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता तस्योपविधदानं स चकाराङ्गिरसो मुनिः पश्चात्सन्ध्यादिकं कर्म शौचाचारमशिक्षयद पित्रा कथितमत्यन्तं नजग्राह जग्राह महामतिः अन्यथा स चकारापि ताडितो यदि योगिपः हस्तं धृत्वा पिता परयामासवैदिकं सर्वमाचमनाद्यं च तथा तेन कृतं किल पुनः पित्राजसम्पृष्टं न सस्मार तदा, तदा स्वयं जडवत्सर्व आचार्यस्थ्यक्रस्तेन महात्मना ततस्तस्य कृतं नाम सर्वैर्लोकैश्च प्रजापदे जड इत्येव सततं कथ्यते यत्र तत्र तैः तत्रा, तत्रा दरापमानादितिरस्कारादिकं महद सम्बभूवच केनापि जडवत्यक्रमेव च लोकाः सर्वे वद्धंस्तत्र ज्ञानमस्य न निश्चितम् निन्दास्तुत्यादिकं सर्वं महामूर्खेण सह्यते जडत्वादिकदोषेण विवाहादिकमस्य नकृतं न कृतं जनकेनैव तेनानन्दमवापसः ततःकालेन निधनं गतस्तस्य पिता मुनिः मादा सदी गुणयुधा सह गा संबूवः माधुस्सपत्नी जाताश्च भ्रातरो नव चाभवन् तेषामधिनतां यादो द्विजोत्सौ शान्तियोगधृक भ्रातृपत्न्यो मदोत्सिकृताश्चकृस्नेहं उच्छिष्टं कुत्सितं चान्नं ज्वलितं तत् दधुस्तुषं वस्त्राद्यैर्भ्राधर सर्वे भाषाह् सत्कृतं नदं चक्रुस्नेहं परित्यज्य कुलपांशुं वदन्धिते तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदद्धकम् अन्नम्बभक्षयोगीशश्चिरवस्त्राय समावृतः तदभिभ्रातृजायास्ता अन्नं तस्मै च नो ददुः वासरमध्येस स एकभुक्चाभवन्मुनिः क्षुधया पीडितो योगी गणपत्यः प्रजापदे ्रभन्नन्नार्थमत्यन्तं गेहे गेहे विचक्षणः तत्र लोकैस्वकार्यार्थे गृहीतो यत्र तत्र सह चकार सकलं कार्यं तेषामन्नार्थमादराद तदस्ते हर्षिता सर्वे वस्त्रान्नाधिगमादराद ददुः सोऽपि प्रसन्नात्मा कर्मकारो भवत् स्वयम् ततस्तैर्भ्रातृभिर्दृष्टं तमानीयस्वके गृहे स्वकर्मकारिणं चक्रोर्भ्रातरो हर्षसंयुताः तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषं सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् कदाचित् पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः भ्रातृभिरक्षणार्थं स रात्रौ वै दिवसे प्रभो तत्रायं संस्थितो विद्वांस्तत्तथैव चकार च अन्नार्थं देहभावज्ञः सुखदुःखादिके समः तत्र चित्रम तु तच्छृणुष्व प्रजापदे चौराणां स्वामिना देवी भद्रकालीति संस्तुता लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि तदा पुरुषरूपं ते दास्यामि पशुमुत्तमं द्रव्यं तस्य तथा प्राप्तं तेन सम्प्रेषिताः स्वकाः चौरा रात्रौ श्रमैर्योक्तास्तत्र जग्मुर्यदृचया तं गृहीत्वा बलात् सर्वे जग्मुस्तानं स्वकं खलाः योगिना देहप्रारब्धं तदा दृश्यम् तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः भोजनं स चकारापि स्वादुविप्रेन्द्रसत्तमः तं पुरस्कृत्य वादित्रायिर्निनदद्भिर्ययौ कलप देवी सन्निधिमानन्दात्पूजिदं परमादराद पूजयित्वा महाकाली तदस्तं मुनिपुङ्गवं पुरस्कृत्यासिनाहन्तुं नग्नं खड्गं चकारसः मरणं देहभावस्य दृष्ट्वा सौयोगिसत्तमः न किञ्चित् सस्मार सस्मारगणपं हृदि अद्यैव पतितो देहोधवास्तु चिरजीविकः तत्र किं कारणं मे वै गजाननमोऽस्तु ते दे। तत्र देवी कोपसमन्विता गाणपत्या महाकाली निःसृता मूर्तिमध्यतः खड्गं चौराधिपस्यापि आस्ता जग्राफलीलया तेन तस्य शिरचित्वा पपौरुधिरमुत्तमम् अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिदाः चिक्रीडस्व गणैर्देवी गणेशस्तव तत्परा तां प्रणम्य परितस्तु सः स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चौरवधो ैकोनविंशोऽध्यायः ओम्